कृष्णयजुर्वेदतैतरीयसंहितायाम् द्वितीयकाण्डे प्रथमः प्रश्नः प्रारम्भः व्यगश्ेतमालभेत भूतिकामो वायुर्वै क्षेविष्ठा देवता वायुमेव स्वेन भागधे येनोपधा हस्य एवं भूतिं गमयति भवत्येवादिक्षिप्रा देवतेत्याहस्यैनमीश्वराप्रदः इत्येतमेव सन्तं वायुवे नियत्वद आलभेत नियुद्वाहस्य तदधृत एव भूतिमुपैत्यप्रदाय भवत्येव वायुवे नियत्वदहालभेतराम रामो वायुर्वा इमा प्रजानस्योतानि नीयते वायुमेव नियुत्त्वं तकृष्वेन भागधे येनोपधावति स एवास्मै प्रजानस्योतानियुच्छति क्राम्येव भवति नियुत्त्वदे भवति ध्रुवा एवास्मानपगाः करोति वायुवे नियुत्त्वद आलभेत प्रजाकामप्राणो वै वायुरपानो नियुत्प्राणापानो खलु वा एतस्य प्रजाया अपक्रामतोऽलं प्रजायीशन्न विन्दते वायुमेव नियुत्वम् ेन भागधे येनोपधावति स एवास्मै प्राणापानाभ्याम् प्रजां प्रजनयति विन्दते प्रजां वायुवे नियुत्वद आलभे द्योगामया वै प्राणो वै वायुरपानो नियुत्प्राणापानो खलु वा एतस्मादपक्रामतो यस्य ज्यो गामयति वायुमेव नियुत्वं तत्रस्वेन भागधे स एवास्मिन् प्राणापानो दधा तृजगीता सद्भवति प्रजापतिर्वाजमेकामयत प्रजाः पशून् सृजे येतस आत्मपामदख्यदत्तामग्नोपरा गृह्णा समस्वायी देवता या आरभतो मै स प्रजाः पशू न सृजदयः प्रजाकामः पशुकामः स्यात् प्राजापत्यमजन्तो परमारभेद प्रजापतिमेव स्वेन भागधे येनोपधावति स एवास्मै प्रजां पशून् परस्तत्पुरुषाणागुं रूपरस्तरश्वा नान्यरञ्जतो दन्तत्ववान्यदव्यादिवशभामेतावन्तो वै काम्याशस्तान् रूपेणैवावरुन्धे सोमा कोष्ठं त्रैतमालभेदपशुपामोर्तौ वाजायीश्वत्वाभिजाये देवोर्जं पुष्टिन्द्रदीय सोमा पूषणा वेवस्वेन भागे येनोपधावतिता वेवास्मैतस्सोमो वै ी रे दोधाः पूषा पशूनाम् प्रजनयिता सोम एव स्मेरे दोदधादि पूषा पशून् प्रजापतिः प्रजा सृजतरास्मात्सृष्टाः पराजीरायन्ता वर्णमगच्छन्तान्वयिताः पुनरयास्मिन् पुनरददात्सोत्परं वर्णेश्वासमे पुनर्देही ददालभत स कृष्ण एकशितिपादभवत्यो वर्णगृहीतस्यात् स एवं वारणं कृष्णमेकशितिपादमालभेत वर्णमेव स्वेन भागधेयेनोपधावित स एवेनं वर्णपाशान्मुञ्चति कृष्ण एकशितिपाद्भवति वारणात् देवतया समृद्ध्ये सोऽर्पाणरा सुरस्वन्दस्मै देवाप्रायश्चित्यस्मायममालप्स्यामःल्पा पृथिव्या सेतया तापोषत यस्तामविं वशामाच ्यक्कामायालभन्त ततो वा अप्रथत पृथिव्यजायन्दौषधयो यः कामयेदप्रथेय पशुभिप्रजया जये येयेतस एतामविं वशामादित्येभ्यः का मायालभेतादित्यानेव कामकृष्वेन भावधें प्रथयन्त्य पशुभिप्रजया जनेन्द्रता त्याम्बाभिरेवास्मिन्ताम्बा रहस्पत्याम्बिता एव देवतास्वेपधावस्मिन् ब्रह्मवच्च सन्दधति ब्रह्मवच्चस्यैव भवति वसन्दा प्रातरा अग्नेयीं कृष्णग्रीवीमालभेद ग्रीष्मे मध्यन्ता मैन्द्रियुसज्य ेश्वेताम्बाहस्पत्यान्त्रीष्मेन्दिने शरद्ये यावन्त्येव ते जागुरान् एवा वरुन्दे संवत्सरं वर्यालभ्यन्ते संवत्सरो वै ब्रह्मवर्चदस्य प्रदाता संवत्सर एवास्मै ब्रह्मवचसं प्रेषति ब्रह्मवर्चस्यैव भवति गर्भिणयो भवन्ति वै गर्भैन्द्रियमेवास्मिन्द सारस्वतीं वेशीमालभेदीश्वरो चो मदितो प्रवदिता वाचो भवत्यं वा एतस्य शरीरं गच्छति सोमस्यीता सुप्ति जीवत्येव सौम्यं लभेदा ज्ञेयं कृष्णग्रीवं प्रजाकाम सोमो वैरेतोधाप्रजानां प्रजनय सोम एवास्मै रेतोदधा यज्ञप्रजां प्रजलयितु विन्दरे प्रजामा ज्ञेयं कृष्णग्रीवमालभेदो मनो विद्यामनोच्चेदया ज्ञेयो भवति ्रह्मस्मिन् दधात्या ज्ञेयम् कृष्णग्रीवमालभेदसौम्यम्प्रमा ज्ञेयम् कृष्णग्रीवम् पुरोधा यागस्पर्धमाना ज्ञेयो वैप्रा मनः देवासुरा एषु लोकेष्वस्पर्धन्तस एतन् विष्णुर्वा मनमपश्यत्तक् स्वायै देवताया आलभतनभ्यजयत्वैष्णवं वा मनमालभेतस्पर्धमानो विष्णुरेव भूत्वेमान् लोकानभ्यजयति विषमालभेद विषमाय महीमे इन्द्राय मञ्जुमते मनस्वदे न शृङ्गमालभेत सङ्ग्रामे संयत्तैन्द्रियेण वै मञ्जुना मनसा सङ्ग्रामं च यतीन्द्रमेव मञ्जुमन्तं मनस्वन्तेन भागधे मेव एवास्मिन्मिन्द्रियं मरुत्वरेन्द्रमेव जातान्म श्रीशङ्करोति सौम्यं वक्रमारवे सौम्यं वान्नेव स्वेन भागधे येनोपधावति स स्वान्नं प्रयच्छच्यन्नादेव अन्नस्यं राज्यं प्रयच्छुवै नमदि वृर्भवत्येतत् वै सामस्य रोपगमसमध्या इन्द्राय वृत्तमं प्रामालभेद श्रीष्ठागामेव वृत्रन्दे याभिमादिग्लामंभिमातिमादिह नोपमेन्द्रमेव वज्र नक्रस्वेन भागधे येनोपधां प्रयच्छदेन वज्रो राज्य I'm afraid I'm going to die I'm afraid I'm afraid I'm afraid I'm afraid रोचत तस्मै देवा प्रायश्चित्येवलामानालभेद ग्रीष्मे मध्यन्ति नेत्रींशति पृष्ठान्त्यपरान्येत्रींशिवारान्त्रीणि वा प्राकृष्मे मध्ये शरत्येव ते जागमशतान्यवावरन् आलभ्यन्तेऽपि पूर्वमेवास्मिन्ते ब्रह्मवर्त्रसस्य प्रदाता संवत्सर एवास्मै ब्रह्मवर्त्रसंवत्सरस्य प्रजापतिसर्वा देवता देवतास्वेव प्रतिष्ठी श्चर्मा भविष्यामि सोमा भोष्ठस्वैवास्मि देवयां करोचर्मा भवति देवास्त्वमिन्द्रियं वीर्यमयस्य मत्त्वन्दे देवामन्य वा इदमोग्यस्मै प्रजापतिरात्मनो देवा वैष्णा लभन्द्रवृक्षाणन्दं वरुणेनैव ग्राहयित्वा विष्णुना यज्ञानन्द्रेणेन्द्रवृक्षाणं वरुणे नैव प्रादुर्ययित्वा विष्णुना यज्ञानप्रणुद्रेण वृत्राभोगे रचिनार्थस्य वृत्रस्य शीरुशतो कृष्णग्रीवमालभेन्द्रं दस्याज्ञरेव स्वेन भागधे येनोपसृतषोडशधातस्य भोगालभ्यदानैन्द्रेण इन्द्रियमात्मन्न दत्ते पाप्स्या ज्ञेयं कृष्णग्रीवमालभेदैन्द्रं शृणमरेवस्य स्वेन भागधे येनोपसृत पात्मानमपि देन्द्रेणेन्द्रिय भवत्येव्यावापृथव्यालभेदप्रतिष्ठापृथिवी एव स्वेन भागधे येनोपधातिष्ठति परिहारिणी भवति परिहारी एतस्य राष्ट्रं यो त्यागव समृद्धि वा इयं वत्समानभेद वायुर्वा वत्स इमे वा एतस्मै लोका अपदृष्ट काविडपदुष्कातिषुकफलत्वमेव स्वेन भागधे येनोपधावति स एवास्मा इमान् लोकान् विषम्प्रदापयति प्रास्मा इमे लोकास्नुवन्दिबुध्येनम् विडुपतिष्ठते एवोत्तमः एतमैन्द्रमुन्नतमालभेदेन्द्रमेव स्वेन भागधे येनोपधावति स एवास्मै पुशोऽन्प्रयच्छति पशुमानेव भवत्युन्नतो भवति सा वा एषा लक्ष्मीदं नतो लक्ष्मीव पशोनवरम्भे यदा सहस्रं पशोन्प्राष्णं वा स्मिन्सहस्रमध्यतिष्ठत्तस्मादेश वा मनः समेषु पशुभ्य एव प्रजात्राण्येव सहस्रगम सम्पाद्यालभेद पशुभोपाहो रात्राणि पशोनेव प्रजातां प्रतिष्ठाङ्गमयच्यौषधेभ्यो समालभेद प्रजाकामपोषध यो वा प्रजा हि परिपादं योरं प्रजा हि सन्प्रजान् भवत्योषधे एव स्वेन भागधे येनोपधा एवास्मि स्वाध्ये प्रजां प्रजनयन्ति विन्दते प्रजामापो वा ओषध्यो दस्मादाश्चमो जातो वा एषयोप्नोतीन्द्रं खलु वा एषा श्रोत्वा स्वेन भागधे भाव साक्षादेवेन्द्रियमवृन्द्राग्नस्सन्नाकृति यात्पुरुषात्सा वह्नपिपदीन्द्राज्ञी भावेनोपेवास्मि स्वामपीथं स्वामपीथो न भवतीन्द्रियं वै सोमपीत इन्द्रियमेव सोमपीतस्मृत्यै प्राह्मणस्पच्छन्दो परमानवेताभितरन् ब्रह्मणस्पतिमेव स्वेन भार्यते येन तस्मादेवैमावृच्छति ताजकार्त्यमार्चतितो परभवति क्षणविर्वा एषा लक्ष्मीतो परस्समृद्धैश्च वैभ्यमत्रमेवास्मि प्रहरति शरमयं वरेष्मादेवैनं वैवेदकयुक्मागत्येवैनम् वारः स्वचंशति पृष्ठमानभेद्रामकामो यः कामये पृष्ठकंसमानानामेव स्वेन भागधे येनोपधातिेन भागधे येनोपधातस एवास्मानप्रत्यन्नाद एव भवति श्यामो भवत्येतद्वारणस्य श्रीमारुतं वृष्टिमालभेदान्नकामोन्नम्रै मृत मृत एव भवति रूपगोसमृद्ध्या इन्द्रमरुणमालभेदेन्द्रियकामेवेन भागधे येनोपधावत स एवास्मिन् इन्द्रियं दधातीन्द्रियाव्येव भवत्य ऋणोमान् भवत्येतद्वा इन्द्रस्य रूपगोसमध्यै सा वित्रभवध्वस्तमालभेद सनिकामस्य पिता वै प्रसवानामि ेवस्मि शुभतिदानकामास्मित्त्वा देवतया समृद्ध्यै वैश्वदेवं बहुरूपमालभेदान् रामो वैश्वदेवं वा विश्वानेव देवान् स्वेन भागधे य नोपधावेवास्मान्नं प्रयच्छन् जन्नादेव भवति बहुरूप भवति बहुरूप्यै वैश्वदेवं बहु रूपमालभेदग्रामकामो वैश्वदेवा वै सजाता विश्वानेव भागते येनापदावति तैवास्मै स जातां प्रयच्छन्ति ग्राम्येव भवति बहुरूप प्राजापतिन्दो परमाणवेदयस्याना ज्ञातमिवज्योर्गामयेत् प्राजापत्यो वै पुरुष प्रजापति खलु वैदस्य वेद यस्याना ज्ञातमिवत्योर्गामयति प्रजापतिमेव त्यारोगै गायत्रैत्तस्यैपरापदत्तम् बृहस्पतिर्वात्साचिति पृष्ठा वशा भवद्य द्वितीयपरापदत्तम् वित्तावरुणागृह्णीता गुंसात्रिरूपवशाभवद्यस्तृतीयः परापदत्तम् विश्वे देवा उपागृह्णन् श्च पृथिवीं प्राविशत्रं बृहस्तिरभिधस्ते बृहस्पतिमेव स्वेनोधापेवास्मिन् ब्रह्मवच्च ब्रह्मवच्चारे ब्रह्मवच्च ैता वृणेन्द्र रूपा मालभेद वृष्टिकामो मैत्रं वा हर्वारुणे रात्रं कलवि प्रत्येव कलवी वृष्टिछन्दसामेव रसेन वृष्टिमवृन्दे वैता वृणेन्द्रिरूपा मालभेद प्रिया कामो मैत्रं वा हर्वारुणे रात्रं कलवी प्रियाप्रिया इन्द्रे ेवन्दसां वा ईश्वरप्रचारशैल्वे प्रजा वृन्दैवैश्वदेवीं वृपातान्नकामो वैश्वदेवं वा अन्नं विश्वानेव देवान् येनोपधापदित एव स्म अन्नं प्रचारसैव खलु वा अन्नं छन्दसा मेव नमवृन्देवैश्वदेवीपामालभेदग्रामकामो वैश्वदेवा वैश्वजाता विश्वामेव देवान्स्मेन भागधे येनोपधावत एवास्मै जातान्मृच्छन्दि ग्राम्येव भव एषारथे जाताच्छन्दसामेव रसेन ब्रह्मवर्त्यस र्वी ब्रह्मवत्रसंवशेनैव वशं ब्रह्मवत्त्रसमवृन्धे रौदीरोहिणी मालवेदाभितरं रुद्रमेव स्वेन भागधैर्योपधावति तस्मा एवैनमावृत्यमात्री भवति रोद्वी एषा देवदयानुष्ठीष्ठ्योष्ठ्यावित्रमेवास्मै प्रारतिशरमयं वरेष्वत्येवैनं वैवेदकलित्वारत्येवैनम् तस्मै देवाप्रायश्चित्तमै सन्दस्मा एतागु भौरीगुश्वेतां दशभन्तं दशामालभेतामनेवादित्यग्धे येनोपधाम एवास्मिन् ब्रह्मवत्सन्ददादि ब्रह्मवर्त्यस्येव भवति ैव प्राहयित्वा ब्रह्मणास्तुवास्मि प्रहृतिवेदत्येवैनं वैष्णवं वामनमालभेदैलमे कृष्णर्वै यज्ञाविष्टमेव स्वेन भागधे येनोधावश एवास्मै यज्ञं वैश्चनो भवति ैष्णव एष देवतयामस्पष्टा वै पुशूनां मिथुनात्कृष्टालमेव स्वेन भागधे येनोपधावतस एवास्मि पुषोन्मिथुनान् वृजनयुत प्रियाहि वा एतस्मिन्नशव प्रविष्टाधेशमान्स न साक्षादेव प्रियां पुशो ने महित्रेतमालभेदसंग्रामे संयुत्ये समयकामामित्रमेव स्वेन भागधे येनोपधावतस एवं मित्रेण सन्नयितविशालो भवतिव्यवसायेत्येवैनं जामत्यम् कृष्णमानभेदवृष्टिकामप्रजापतिर्वीवृष्ट्या ईशे प्रजापतमेव स्वेन भारते जैनोपधापत स एवास्मित्यञ्जम् वर्षेत कृष्णो भवत्येतद्वीकृष्णीरूपगो रूपेणैव वृष्टिम् वृन्ध्य शवलो भवति विद्युतमेवास्मै जनयित्वा वर्षेत्य वा शृङ्गो भवति वृष्टिमेवास्मै वर्णगो सुषपानमन्नात्यन्नोपानमत्स एतां वारुणीं कृष्णां दश्यामपश्यतागस्वायी देवतायामन्नात्यमपालमन्नात्यायसङ्गमन्नात्यन्नोपनमेत्स एतां वारुणी कृष्णां वरुणमेवन्नादेव भवति कृष्णाभवति वारुणे समृद्धी मैत्रग्र्वेतमालभेदवारुणं कृष्णमपाञ्चोषधीनाञ्च सन्धावन्नका मैत्रीवाषधय वारुणेरापोपाञ्च खलु वा ओषधीनां चरसमुपजीवामरुणा वेदस्वेन भागधे येनोपधावेवास्माकं प्रेक्षतो मैत्रग्र्वेदमालभेदवारुणं दृष्टं ज्योगामया वीर्यैत्रेण साक्षादेवैनं वरणपाशान् ये देता दुर्भवति देवत्येव देवा वै पुष्टिन्ना विन्दन्तां मिथुने न्दोमृ रामेदयोदुर्प्रा ब्रह्मणः स्वामं विवाचे अश्विनो वै देवानाम सोमपादा अश्विनावेदस्य देवता यो दुर्प्रामस्वामं विवासेवस्मै सोमपीथं वै नोमीथो नोमृभव सोमृमाणमेवास्मादहन्तिवास्मिन् ुंसन्ति नैष्रामे प्रशन्ना वायुर्वै देवानां पविं वायुमेव स्वेन भागधे येनोपधायति स एवं भवे यदस्मैच्छन्ते तमपाश्विने शिष्यमाने सौर्यो नौर्यं भवनमेवारुत्यस्वेन भाग युद्धवो दिवो याविशर्मा हरेश्चन्द्रहो वामहे चन्द्रम् मित्रम् वरणगोंसादये भरन्द्या वा पृथिवी मरुतः स्वस्थये मत्त्वनः परिमावसुः मतो श्रीकरीन्द्रापर्वता इवन्नस्तन्माविश्वे परिवश्यन्तु देवाः नाम हुवे दुराणाः आयत्रपन्मरतो वावसानाः श्रीशेकम् भानुभिः सम्यवीक्ष्य वेदेस्वपादयः वे एवाजीनन्दो भीरव विद्दे प्रियस्य मार्गस्य राम्नः श्वे देवास्वनसा भवन्तो पुत्राचित्यस्य समतो रन्वानुराने अलहन्तश्चित्ये सञ्जनयन्ति जन्तवः संयनामहे शवस्य देवानाम् प्रत्येतमादित्याः सोऽयवक्षेदृद्धया स्वीरः आदित्याः स्वद्र्योन् अन्तरेषाम् आदित्यामयन्तर्णमित्रो क्षत्रियागुमवादित्यामयेष्टये दक्षिणाविचिकितेन सव्यानुप्राचीनमादित्यानोदपश्चुष्मानीतोपयञ्ज्योतिर्ष्या आदित्या नामवसा नूतनेन लक्षीमैषर्मणाशन्दमेनशोषमाणाः इमेव्याचमुदया पामस्विराजके कृत्वायामि ब्रह्मणा मन्दमानस्तलाशा स्तेयजमाना हविद्भिः य प्रमाशे इति द्वितीयकाण्डे प्रथमः प्रश्नः समाप्तः